अम्बयोयम् अध्वाभिर्जामयो अध्वरे यताम् पृञ्जलेर्मधुजापयाः अमोर्यावुपसूर्येजाभिर्वासूर्यः सः राणोहिन्वन्तध्वरम् अपो देवीरुपः पदेयत्र गामस्तिबन्दिनः भ्यः कर्तुम् भविः अप्सुवा अन्तरमृत वप्सु भेषजमपामुत प्रशस्तये देहा भवदभाजिनाः वप्सुभे सोमा अब्रवीदन्तर्विश्वानि भेषजा अग्नि विश्वसम्भु अवापश्च विश्वभेषजीः आपः प्रणीतभेषजम् वरोतम् तन्भे मम जोक्तदूर्यम् दृहे इदरापः प्रवाहत यत्किञ्च दुरितम् मयि यद्बाहमभिरुद्रोहयद्वासेव नृतम् आपो अद्यान्व चादृषम् रसेन समकस्मै पयस्वानज्ञागहितम् मा संसृजवच्च सामादेवच्च सादृजनम् प्रजजातमायुषा विद्युर्मे अस्य देवा इन्द्रो विद्यात् सहर्षिभिः तस्य नूनम् च तमस्यामृता नाम्मना महेचारुदेवस्य नाम, नाम मह्यादीतये पुनर्दात्पितरम् दधृधेयम् मातरम् च अग्नेर्वयम् प्रथमस्यामृता नाम् मना महेचारुदेवस्य नाम सुमह्याधीतये पुनर्दात् पितरम् दधृधेयम् मातरम् च अपि हित्वा देवसवितरीसानम् वार्याणाम् सदावन्भागमीमहे कश्चिद्धिता यच्छ भगः समानः पुराणि अर्बेणो हस्ता योर्दधे भगभक्तस्य ते वयमुदासे मतमावासा मूर्धानम् धाय आरभे न्यम् वयश्चरामीपदयम् द आपोः देवापोगम्बरम् तीर्णयेवादस्य प्रमिनन्त्यध्वम् अबुध्ने राजावरो लोमनस्योध्वम् स्तूपम् दददे भूतदक्षः दीलीलास्तुरुपरि रोणश्चकारसूर्याय पन्था वन्वे दवावो अपदेवाधाकृति धातवेकरुदाहृदया विधश्चित् सदम्बे राजम् विषयजः सहस्रमुर्मीगभीरासो मदिष्टे अस्तु बाहस्वदूरे निरुजिम्बराजे कृतम् जिलेन प्रभो बुद्ध्यस्मत् अमीय रक्षाणि दासभुच्चनः कन्दश्रे गुहासिद्धिवेरुः अदब्धा निरो नस्य व्रतानि विजागासश्चन्द्रमानत्तमेति तदमाया विब्रह्मणामन्द्यमानस्तदास्तेयमानो हविर्भिः अनेलमानो वर्णे अभोध्युरो संसमानाय प्रमोषीः तरिन्नत्तम् दद्दि वाह्यमा हस्तदयम् केतो हृद आविचष्टे नस्य वोयमह्वग्रिभेदस्व अस्मान् राजावरो न मोक्तो नस्य बाह्यःपग्रभेदस्तृष्वा नित्यम् द्रूपदेषु बद्धः अवीयम् राजावरो नस्वसृजा विद्वारब्धोऽपि मो मोक्तुवासाने अपतेः लो वर्णनमोऽभिनवयज्ञे भीरीमहेहविद्भिः क्षयन्नस्मभ्य मधुरप्रदेताराजन्नेनाम् सिशिस्वतः कृतानि पुरुत्तमम् वर्णपाशमस्मदमाधमम् विमध्यमाम् श्रय अथा वयमादित्य प्रदेतवानागसो आगसो स्याम यच्छिद्धिते विशोय चा प्रदेमवरुण व्रतम्बिद्य विद्यमि मानावधाय हत्रवे जीनालस्य नीरधः मा हृलादस्य मन्यवे नृकाय ते मनो रथीरस्वन्दसन्दीतम् गीर्भिर्वारुणसीमहि पराहि मेमिमन्यपदम् दिवस्यायिष्टये वयो नव सती नृप कदा क्षत्रश्रियम् न रमावरोणम् करामहे व्रीकायो ऋचक्षसम् तदिच्छ मानवासा देवेनम् वेदायो वीराम् पदमन्तरिक्षेण पतताम् वेदनामस्समुद्र्याः वेदभासोऽधृव्रातो द्वादश प्रजावादः वेधाय भूपजायते विहदः वेदाय धृतौ व्रतो वरुणः पस्त्या आस्मा साम्राज्याय सुक्रतोः अतो विश्वान्यद्भूताजि गत्वा अभिपश्यति कृपा जगत्वा सा विश्वाहा सुप्रदूराधित्यः सुपथाकरत् प्रणायोऽितारिषत् निर्भद्रामिम् हिरण्यजम् वरो नो वस्तनिर्निजम् परिस्पसो निषे दिने नयम् नित्सन्दीप्सपो न द्रुह्मा नो जनाना तदेवमभिमातयः उदयो मानोषेष्वायशश्चक्रे असाम्या अस्माकमुदरेष्वा मेयन्ति भीतयोगाभोनगम्यो तीरनो इच्छन्ति चक्षुम् सर्ववाचै पुनर्यतो मे मध्वाभृतम् कोरे रक्षतासे प्रियं। दर्शन विश्वदर्शकम् दर्शन समधिक्षमि एताजोषत मे गिराः इमम् मे वरुणश्रुधिजा च वृणयस्य राके त्वम् विश्वस्य मेधिर जिवश्चग्मश्च रा सजामाणि प्रतिश्रुधि पुरुत्तमम् बुद्धिना पिपासम् मध्यमम् श्रीत अबाधमाणि जीवसे वसिष्वाहिमीये ज्यवस्त्राण्योर्जाम्बते श्रेमन्मा अध्वरम् यज निरोहो तामरेण्यस्तदा यविमन्माभिः अग्ने जिवित्म तामचाः आयुष्मा सोनवे दिदाभिर्यजत्यापये सखेवण्यः आनो बलिः विषादसोमरो न मित्रो हर्यमा श्रीदम् त्वमनोषो यसा ूर्वहोदरस्य रामन्दस्व सख्यस्य च इमा पुरुष्रुधीगिराः यच्छिद्दितस्व पातला देवन्दे भङ्गिजामहे त्वे युद्धूयते हविः प्रियोस्तु विस्मजरुहोता मन्त्रोपरेण्यः प्रिया स्वग्रजो भयम् स्वज्ञयो निवार्यम् देवासो दधिले जनः स्वग्नयो मनामहे अथा न भुमये समर्त्यानाम् इतः द्वप्रसस्तयः विश्वेभिरग्ने अग्निभिरिमम् यज्ञमिदम् वचाः च माधाः सहजो अश्वन्न मारा मन्दम् मन्दध्या अग्निम् नमाभिः सम्राजम् दराध्वरानाम् सघाद सोमस वासा सुवासु सेवाः मेध्वा अस्माकम् बभूयात् समादूराच्चासाच्च निमर्त्या इमपुरुष त्वमस्माकम् श्रलिङ्गायत्रम् नव्यांसम् अर्णे देवेषु प्रबोदः आनो भज परमेष्वायेषु मध्यमेषु श्रीक्षामस्व अन्तमस्य विभक्तासि चित्रमानो सिन्धो रोर्मावोपाकः सज्जो दासुषे क्षरसि जमादे वृत्समर्त्यमभावाजेष्जुनाः स्वयम् काशस्वधीशाः नचीरस्य सहञ्जवर्येता कजस्यचित् वायो अस्ति स्रवाय्याः समाजम् विश्वचर्घणिरपद्भिरस्तु कर करूता विप्रेभिरस्तु सनीता द्धि विद्धि विषे वीषे जज्ञिया स्तोमम् वृद्राजनृशीकम् सर्वमानि मानो धूमते दुः पुरश्चन्द्रः दि देवाजाय हिन्वतु स देवाङ्गेव विश्वदर्दी जः केदश्रे नो दुनः मुक्थैरग्निर्बृहद्भानुः नमो महद्भ्यो नमो अर्भकेभ्यो नमो युवद्भ्यो नम आसीनेभ्यः त्रिदामदेवान्य शक्नवा ममाद्याय स्वस्थम् समाविक्षिते वा यत्र ग्रावाद्रभूद्वो भवति सो तवे रोसुता नाम वेद्दिन्द्रजल्पुलः तत्राद्भावघनाधिष्या कृता पुलोखलसुता नाम वेद्विम् प्रजल्गुलः यत्र नार्य वच्यवमोपच्चवम् च शिक्षाते पुरोघरसुता नाम वेद्विम् प्रजल्गुलः जन्थाम् विभधते रश्मीयीतमायैव ोघलसुता नाम वेद्विन्द्रजल्गुलः यश्चिद्धि त्वम् विहेर्विहमुलोकलकयुज्यसे इह द्युमत्तामम् वद यातामिवदुन्दुभिः पुनस्मादेव वनस्पतेवातो अतो इन्द्रायपाता वे सुनुसो मा यजीवायसात माता ह्यो रुचा वीजद्भृतः परीयिवान्धाम् शिवत्सदानो अत्यवनस्पति ऋष्वा ऋष्णेभिः स्तोतृभिः इन्द्राय मधूमत्सुतम् उच्छिष्टम् दम्बाभरसोमम् पवित्रा श्रेजा निधेहि गोरधिपति यच्छेद्धि सत्यतोमपाना सस्तयि वस्मसि आरून इन्द्रदम् दयगोष्वस्मेषु सुभ्रिडुधरस्तेषु तुमघ श्रीप्रिम्बाजानाम्बते सती वस्तव दंसना आदून इन्द्रदम् दयगोष्वस्मेषु सुभ्रिणुधरस्तेषु तु भीमघ विश्वापयामि सोदृशा सस्तामबुध्यमाने आदून इन्द्रसंसयकोष्वस्मेषु सुभृढु सहस्रे एषु तुमघ ससम्पत्या रजयो बोधन् द्रूरनातयाः आदून इन्द्रसंसयकोश्वस्मेष सुभृणु सहस्रे षु तु मेमघ समिन्द्रभम्रेण नुमन्तम् पापया भूया आदून इन्द्रसंसयगो स्वस्ते ऋषुभिरु रहस्रे ऋतुमेमघ अतरादिकुम् नृणाच्या दूरम् वातो मनादधि मातु न इन्द्रसंसयगोष्वस्ते ऋषुभिडो रहस्रे ऋतुमे मघ सर्वं परिक्रो सञ्जयहिजम्भयागृथा स्वम् आतो न इन्द्रसंसयगोष्पस्पे ऋतुभृ सहस्रे ऋतुमघ आभयन्द्रम् कलिम् यथा वा जयन्तः सम् ब्रह्म् सिञ्जयन्तोभिः शरणम् वायस्तु नीनाम् वासमाशिरा निम्नम् नरीयते सञ्जन्मदाय सुमिना ये याह्यस्योदरे समुद्रोऽव्यचोदधे अयमु ते समादसि कपोदायिव गर्भधिम् वरस्तश्चिन्नवोहसे सोत्रम् राधानाम् पदे निर्वाहो वीरजस्य ते विभोदिरस्तु सूदा ो ध्वस्तिष्ठानभूतयेऽस्मिन् वाजे शरकरो समन्येषुभ्रवावहै योगे योगे नमस्तरम् वाजे वाजे हवामहे सखाजेन्द्रमूतये आघागमजति श्रवत्सहस्रिणीभिरुतिभिः वाजेभिरुपानोऽहवम् मम रत्नस्य उकासो हुवेतो हि प्रतिन्नम् दे पूर्वम् पिता हुवे हम्त्वा वयम् विश्वमहाराधात्महे पुरुहूत सखेव सोजऋतुभ्याः अस्माकम् श्रिप्रणीनाम् सोमपास्वपाम्ना सखेव जन् सखीनाम् तथा तदस्तु सामपास्तथा गृणौ यथा न भुष्मसेष्टये रेवतीर्नः स धमाद इन्द्रे धन्तुविवाजाः श्रुमन्तो या धर्मदेव आध्वा वान्मनात्तस्तो दृग्भ्यो धृष्णविहानः ऋणारक्षन्न शक्योः आयद्गुवः सदक्र न वा कामम् चरित्रेणा ऋणा रक्षम् न सचीभिः सस्वदिन्द्रः पा सद्भ्यर्जिका जनाना गो दस्राहिरन्यवत् समानयो जनो हि माम् रथो समुद्रे अश्विने जाते या अग्नस्य मूर्धनि चक्रम् रथस्य ये मतुः परित्यामञ्जदीयते अस्तामुषः रथप्रिये भुजे मर्तो अमर्त्ये कन्नक्षसे यम् हि ते अमन् महत्या अस्मेन चित्ते अरुषि वन्देभिरागहिवाजेभिर्दुहि दर्दिवः अस्मे रयम् निधारयमाग्ने प्रथमो अङ्गीरारिषद्देवो देवानाम भव शिवः सखा तवा भ्रते कवयो विद्मना वसोजायन्तमरुतोऽभ्याजादृष्टयः ममग्ने प्रथमो अङ्गीरस्तमःर्देवानाम् परिभूषति व्रतम् विभुर्विश्वस्मे भुवनाय मे प्रथमो मातविश्व न आविद्मा रे चे ताम् रोदयसीहो द्रवोर्ये सघ्नो भारमजाजो महो वासो स्वमज्ञे मन वेद्यामा वासयः पुरोदवासे सुकृते सुकृतरः स्वात्रे न सेवल्यात्मा पूर्वमणयन्ना परम् पुनः सुवाग्ने वृडभः पुटिमर्धनमुद्यातस्रुजे भवति स्रवाय्याः भाभूधिम्बरिवेदापषट्कृदिवेका जुरग्ने विश आविवासति मग्ने वृजिनवर्तनिन्दरम् शक्मन् विवर्णिविदधे विदर्शने यः शूरदातापरीदग्मे धने दभ्रेभिश्चित्समेताहंसि भूय सः त्वम् तमग्ने अमृतत्वमुत्तमेऽमर्तम् दधासि स्रमासे जिवे जीवे यस्तादृशा न उभयाय जन्माने मयः कृणाषि सूरजे नम्ना अग्ने सनये धनानाम् यशसम् निर्ध्यामगन्मापसानमेन देवैर्या वापृथिवी प्रावः रन्नाग्ने मित्रापस्था देवो देवेश्वणव जाग्रीविः मनोकृ प्रमादिश्च कालभे त्वम् कल्यानवसमे स्वी त्वमग्ने प्रमादिस्त्वम् पितासी नस्त्वम् वा यस्तव जामयो भयम् तम् पारायः सति हस्तम् दहस्त्रिणश्चीरञ्जिपामादाभ्य वामग्ने प्रथममायुमायुवे देवागह्नहोषस्य निष्पतिम् यदामगण्मनोषस्य सासानिम् विदुर्यत् पुत्रो मम कस्य ह्ना अग्ने तव देव वायुभिर्मघोनो रक्षतन्वश्च वन्द्य राजातोकस्य तन ये गवास्य निमेषं रक्षमाणस्तवभ्रते त्वमाग्ने यज्ञे वायुरङ्गा नो निषङ्गा याचतुरक्षयुध्यसे यो रातःभृता यथा जासे गीरेऽस्मिन् मन्त्रम् मनसा मनोषिकाम् रुसंघते स्मार्वम् यद्रे नः परम् अनोषिषे आर्द्रश्च यत् प्रमादिरुच्यसे विदा प्रमाघम् सास्य प्रतिसाभिष्टः स्वमाग्ने प्रयागदक्षिणम् नरम् वर्मे अस्योतम् परीभासि विस्मताः रक्षद्मायो वसदोऽस्यो न गीवधातम् सो यजते सोपमादिवः सरणिम् मे मृणो न जिममध्वानम् यमकामधूरार आभिः पिता प्रमादि सौम्यानाम् मनस्पदग्ने अङ्गिरस्पदङ्गिरो पूर्ववच्छूजे अर्थाह्याञ्जनमासादयबर्हिय क्षीरप्रिया एतेनाग्ने ब्रह्मणा वा वृतस्वशक्ती वा यत्ते जग्रमा विदावा। उदरप्रणेशैवस्य अस्मान् सन्नस्कृतसु हत्याभागवत्या इन्द्रस्य नु वीर्याणि प्रभो शञ्जानि सकारप्रथमानि वज्री अहन्न हिमन्मस्तदर्ध प्रवक्षणाहत्पर्मदाना िम् पर्वा जयसि श्रीधानम् दुष्टा नैवज्रम् स्वर्यम् प्रदक्ष मा स एव धेन भस्यम् दमाना अञ्जः समुद्रमपजमुरापाः राजमाणो वृणे दसा मन्त्रुमेष्वमिव सुतस्य आदायकम् मघवाघ्रमहन्नम् यदिन्द्राहम् प्रथमजामही नामान् मायि नाम मी नाः प्रोतमायाः आत्सूर्यम् जनयञ्ज्यामूषासम् तादीत्रासत्वम् न किला विविचे अहम् रत्नम् नमः मधेन न्धांसि वकुली सेनाविघृग्ना हिस्त यतौ अवृत्पृथिव्याः अजोद्धे वा धनुमथा हि जुक्पे माहावीरम् दोविषाम् नागारेतस्य समृतिम् वधानाम् समृजानापि न इन्द्रत्व अपादहस्तोमृतन्यजिन्द्रमास्य वज्रमधिकारो जघान दृष्ट्वा मध्यः प्रतिमानम् बुभूषङ्रुद्रा भृत्रो वा स गभ्या सः अदरङ्गभिन्न वा भुयाशया नाम् मनोरुहा नादीयम् जावाह याश्चिद्वृत्रो वा हिना पर्यतिष्ठक्ता सा महिम् वत्सु धरः पुत्रासीदामस्तये यावत्सानधेनो अतिष्ठन्दीनामनिवेशनानाम् काष्ठानाम् मध्ये निगृतम् शरीरम् ऋत्रस्य निन्द्यम् विचारम् चापो दीर्घन्तभास यदिन्द्रशत्रुः दासपत्नीलही गोपातिष्ठनिरुद्धावः पणिने भगावाह ीहितम् जरासीत् भृत्रम् जन्वाभवद्व अस्यो बालो अभवस्तलिम् रसि यत्त्वा प्रत्यहम् देवजेकाः अजायोगा अजायसो रसो भव वा शिजः सत्त मे सप्त सिन्धून् ेषधायाम् इह मकीरद्धाधुरिम् च इन्द्रस्तयज्जो युधा ते अहिश्चोतापरीभ्यो महभाविजिज्ञे हरे जाता रङ्गमा वस्य इन्द्रहृदयत्ते जघृषो भीरगच्छत् न वा जयम् न भजम् च स्रवन्ति श्येनो न भीतोदरो इन्द्रो जातो वासितश्च राजा समस्य च शृङ्गिभा भद्रा बाहुः क्रयतु राजा सुप्रमादिम् वा वृधाति अनावृणः कुविदा तस्य रायोगभाङ्के परामर्जाम् ज्युष्टाहम् न्येनो वा सचिम् बदामि इन्द्रम् न वस्यन्नो भवेभिोऽहम् यो अस्ति यामन्ने निसर्मासेन यिषु धीन्द्रसप्तमयोगाजधियस्य मष्टिष्टोयमान इन्द्र भूरि वामम् मापणिर्भोरस्मदधिभ्रवृद्ध प्रधीर्ष्यम् धनिनम् गणेनाङ्ग्ये कश्चरन्नुपसाके दीरिन्द्रोरथे विषु व्यायन्नज्वालस्तनगाः प्रेदीमेयोः यच्छेर्वावृधस्त इन्द्रा यज्वा नो यज्वाभिः स्पर्धमानाः त्रयद्धिवो हरिवस्तादरघ्रनिरव्रता कथमोरोदस्योः अयो यत्सङ्गणवध्यस्तमजादयङ्गक्षितयो न वग्वाः रायधो नवज्रायो ृदतो रक्षादश्चायोधयो रजा अमादहोऽधिवादस्य मुच्चापृसम्पदस्तु मदः सन्दामावह चक्रानाथः परेणहम् दृशिव्याहिरण्येन मणिना शुम्भ्रमाणाः जयिन्मानाथस्ति दुरस्त इन्द्रम्बरिष्पसो दधात् सूर्येण पर्ययम् उभे अभूभोजेर्मदस्यमानाम् अभिन्यमाने ब्रह्मभिरथभोधश्चोमिन्द्र तदेवम् पृथिव्या अङ्गमापन्नमायाभिरुधनदाम् पर्यभोवन्श्चिन्द्रो निर्ज्योतिषा तम सोगा धुक्षत् मनस्वदामक्षरन्नापो अस्यामर्थ्यानाम् श्रद्धीले न मनः सा तमिन्द्रवो जे न हन्मानाहन्न विद्योन् या विध्यति ले भिदस्य दृढाभिसङ्गिनामभिनश्च सत्रो भवधे पृथङ्गम् च्छादानः आहर्तुमिन्द्र यस्मिन् जागङ्गा भो युध्यन्तम्भन्द सद्यम् सभर्तुरेणुर्नक्ष दत्यामुच्चैरे श्रृढभुक्या सुक्षेत्रिरत्रिवान् सोऽ यदा मधनागः निश्चिन्ना अत्या भवदङ्गवेदसा विपर्वाङ्गदरादिरस्विना युष्वारियन्त्रम् हिम्ये भवतम् मनीषिभिः पवयो वा मधुवाहने रथे सोमस्य मे नाम संभारस्वभिन्नम् यातस्तस्मिनादिवामे अहम् गोहनात्रिरद्य यज्ञम् मधूनामिक्षणाम् अस्मिना युवम् दोषा अस्मभ्य मुजलश्च विन्वतम् सुप्राव्ये त्वे देवम् निर्माद्यम् वाहदमस्विन युवम् अस्मे अक्षरे विन्वतम् निर्वायम् वाहदमस्विना युवम् दर्देवताः दात्रिहृदवन्धिया निम् दृढद्रवाम् दिनत्रिष्टम् सूरे अश्विना दिव्यानि भेषार्थिवाहित्रियोमध्यः ओमाणम् शञ्जातमाकालसौरवे त्रिधातुशर्मा वहदम् सुबस्पती धातो पृथिवीमाधायतम् तिस्रोरा सत्या रत्या परावता आत्मे भवानस्तु राणि गच्छन् त्रिरश्विना सिन्धुभिः सप्तमा त्रिभिस्तया आहवा त्रेधा हि प्रदम् तिस्र पृथिवीरु परिप्रवाधिवो नाम रक्षे थेज्भिरक्षभिर्हिताम् ्रा रथयो बन्धुरो ये सनीराः कदा योगो भाजियोसभस्मेन यज्ञम्ना सत्यपरासः माना सत्यागच्छ सम्भोजते हविर्मध्वप्युभम् मधुपेभि रासभिः पूर्वम् न विताय चित्रम् धृतवन्तमिष्टे आणा सत्यात् त्रिभिरेकादशी लिह देवेभिर्यालम् मधुमेजमस्विस्तारिष्टम् नीरवान् निर्मित सम्भेदम्भेषा भवता भुवा आणास्विवृता रथे धार्वा स्वयं वाहतं सुबीरम् श्रीमन्दा वासे लोभी मृ न भवतं साधौ त्वयामि स्वस्थे त्वयामि निद्रामरोणामिसे त्वयामि रात्रीं निगो निवेशानीं त्वयामि देवं दितारा भूतये मा कृष्णेन रज सावर्तमानो निवेदयम् नमसम्मत्यम् च निरण्येन च विचारथेन देवो यादिभुवना शिवस्य यालि देव प्रवतायात्युद्वदायाति शुभ्राभ्याङ्गतो हरिभ्याम् आ अभिवेदम् हिरण्यसंयम्यजतो हन्तम् आस्था कृतम्प्रभाविस्तिपादो अख्यम् रथम् हिरण्यप्रमुखम् वहन्तः शश्वद्भितस्य पितुर्देव्यस्योपस्थे विश्वानाय स्वः इस्वाद्यावस्मितत्वा उपस्थान्येकायवस्य भुवने विराषाट पाणिन्य रच्यामृताधीयस्तु निहप्रावीतु नश्चिकेत पितु महन्न अन्तरिक्षान्यत्य भैरवे भासूरस्वीतः वे यत् कश्चि केचन समाञ्ज्या अष्टौ व्याख्युपः पृथिव्या स्त्रीधन् प्रयो जाना सप्त सिन्धो न हिरण्याक्षस्य पिता देवात्ना राजुवेवार्याणि गिरण्यमानस्य पिता वितर्षणि रूपे द्यावा पृथिवी अन्तरीयते ी वाम्ब देवेति सूर्य कृष्णेन रजसाध्या वृणोतिरण् स्तोसूरस्तु नीधस्व प्रणीतस्त्वसेधम् रक्षतो यातुम् राजितोषम् कृः के देवन्ता सविदः पूर्व्यादो रेण वस्तु कृतान्तरिक्षे अद्य पतिभिः सुगे भीरचा च नीचब्रूहि देव नूरूणाम् साम् देव यतीना अग्निम् सूक्ते धर्मजाभिरीमहेयम् धीमिके जगातो अग्निङ्गधिरे सो वृद्धम् भविष्पम् तो विधेवते तरत् नाम्ना अद्य सुमना या विवाजेषु सञ्ज्या तत्माधूतम् होदारम् विश्वरे सन् वनहस्ते सतो विचारम् चर्जयो दि विस्त्रे सन्धि भान्वाः एवासस्तावरो नो मित्रार्यमासम् धूरम् भृत्यमिन् धरे त्याः मन्द्रो होताहमाधिरत्ने धूतो विषामाधि वे स्वासङ्गाय व्रता ध्रुवाजानि देवागन्वदा वे लग्ने सुभगे समाहो यदे हविः सत्परमाः अद्य सुमना उदा वरम् यक्षि देवान् सुरीता स्ति नव स्वराजमासरे गोत्राभिरक्ष्मोषस्तः वृत्तमतरम् रोदी मम पुरुक्षयान् मे वृषा जुम्याहो नस्त्रम् ददशोकविषिषो संसीनस्व महा शोकस्वदे भवी कामः ऋम् मे येध्यप्रहस्तदर्शनम् जम्पादेव सोमनावेदृशिष्कम् भव्यम् कण्भो मेध्यादिजहस्तम् ऋषायमो वस्तुतःकण्तादधि तदप्रेणोस्तमिमादितस्तमग्निम् वर्धयामधि जस्वोऽर्धिष्वधावोऽस्त्री देवेष्वाप्यम् बहुवारस्य श्रुत्यश्च राजसितनामृ महाजि ऊर्ध्वभूष्ण भूत जयतिष्ठा देवो न स पिता वोर्ध्वो वाजस्व धनि काज धञ्जभिर्वादद्भिर्विश्वयामहे ो नः पाद्यम् नेतु ना विस्वन्द्रिणम्बः भूर्ध्वाञ्चलीवसे विदा देवेषु नोद्वाह पायियाग्ने रक्षसः पाहि धूर्तेर नाम्नः पाहिरीषभृभाजिधाम्सो बृहद्भातो य वृष्ट्या घने भविष्मग्निश्चपम् भयो अस्मधृगमस्थिति अत्यर्चस्तनिपुरीश अग्निर्वौ मे सुवीर्य भग्निस्तन्वायसौभागम् अग्निः प्रामन् वित्रोदमेऽध्यादिति भग्निः सादास्तुतम् अग्निना सुर्वसञ्जतम् परामतमुक्तादेवम् भवामहे अग्निर्नजन्न वार्पीदस्य भेदः निर्वामेव निरज्जना ऋतस्वा ते सकन्व ऋतजादवक्षितो मश्यन्ति दृष्टयाः ेषासो अग्नेरमा बन्तो अर्चयो भीमासो न प्रतीगये रक्षस्वि अस्तद विद्या स्वम् तत्रिणम् दः त्रीणम्बद्धो मारुदमनिर्वाणम् रथे शुभम् अरन्वा धाय कृष्णाय वेदज्यम् गाय कृष्णे देवत्तम् ब्रह्म गायत रसरम् साधोश्रद्वम् प्रेरञ्यच्छो मानूतम् शम्भेण मायमानोढो दध्रमुग् मन्यवेजमर्णातो गिरिः एषा मग्मेषु पृथिवीजोजुर्वाङ्गील बृहस्पतिः भियायामेषु रेजाते स्थिरम् भियामेषाम् मयो माधुर्निरेतवे यत्सीमरणद्विदासवाः त्य सोणभोगिरस्काष्टात्मेश्वम् वृथम् विहोनपादमलद्धम् रत्या वयम् विजामाभिः मरुतो यद्धा गोफलम् जनाम् नजुच्छवीतलीङ्गजुच्छवीतलद्धयाङ्गी मरुतस्तम् बभ्रुवते शृणोति कश्चिदेषा अजरादशीभाजभिः सन्ति कन्वेषु बोधुभाषु मादयाध्वै अस्तेष्मावदाय भस्मचष्मा भजमेषा विश्वम् जायजीवसे रङ्गियः पिता पुत्रम् न हस्तयोः वृत्तपरिणः वालो लोनम् गद्वार्थो ने सिव्याः वा भोगावो नरङ्गन्ति मास्तुम् नान्याम् समरो दक्ष्पा सुमिता ओस्तासौभ्या यद्योजम् वृष्टिमातरोमत्ता सस्यादा स्तो अमृतस्या भूजोष्यः वधा यमस्य धातु हरेष्टकृष्णाया सह सत्यम् तेषामन्तो धन्वन्दि ऋत्विजा सहम् धन्वन्दिता विद्युन्वीवाजिवत्सन्नमाताशीभक्ति ी दिवा चित्तमः यत् पृथिवीम् युन्दन्ति अधः सहान् मनुदामिः समास पमार्थीवम् अरेयम् न प्रमाणोषाः मनोतोलोदस्तो जाले महिमभिः यो रस्वासेषा सुसंस्कृता अभिसर्वः रक्षावधा ब्रह्म नस्पतिम् अग्निम् मित्रम् न दर्शनाम् गामास्ते पर्जन्यायैव गाय गायत्र मुख्यम् अन्धस्तमारोदम् घटे मर्तिनम् A saferta nandiya u oh.